अथ चत्वारिंशः सर्गः अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः उपसङ्गृह्य राजानम् चक्रुर्दीनाः प्रदक्षिणम् तम् चापि समनुज्ञाप्य धर्मज्ञः सह सीतया राघवः शोकसम्मूढो जननीमभ्यवादयत् लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् अपि मातुः सुमित्राय जग्राहचरणौ पुरः तम् वन्दमानम् रुदती माता सौमित्रिमब्रवीत् हितकामा महाबाहुम् मूर्ध्पाघ्राय लक्ष्मणम् वनवासाय स्वनुरक्तः रामे प्रमादं मा कार्षीः पुत्रभ्रातरि गच्छति एष लोके सताम् धर्मो यज्ञेष्ठवशगो भवेत् इदम् हि वृत्तमुचितम् कुलस्यास्य सनातनम् दानम् दीक्षा यज्ञेषु तनुत्यागो मृधेषु हि लक्ष्मणम् त्वेव मुक्त्वा सौ संसिद्धम् प्रियराघवम् सुमित्रागच्छ गच्छेति पुनः पुनरुवाचतम् रामम् दशरथम् विद्धि विद्धिजनकात्मजा अयोध्यामटवीम् विद्धि गच्छतात यथा सुखम् ततः सुमन्त्रः काकुत्स्थम् प्राञ्जलिर्वाक्यमब्रवीत् विनीतो विनयज्ञश्च मातलिर्वासवम् यथा रथमारोह भद्रम् ते राजपुत्रमहायशः क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र माम् राम वक्ष्यसे वर्षाणि वस्तव्यानि वने तान्यपक्रमितव्यानि यानि देव्या प्रचोदितः तम् रथम् सूर्यसङ्काशम् सीता हृष्टेन चेतसा आरुरोहवरारोहा कृत्वालङ्कारमात्मनः वनवासम् हि सङ्ख्याय वासाम् स्याभरणानि च भर्तारमनुगच्छन्त्यै सीता यै श्वशुरो ददौ तथै तथैवायुधजातानि भ्रातृभ्याम् कवचानि च रथोपस्थे प्रविञ्यस्य स चर्म कठिणम् च यत् अथोज्वलनसङ्काशम् चामीकर विभूषितम् तमारुरुहतु स्तूर्णम् भ्रातरौ रामलक्ष्मणौ सीता तृतीयानारूढान् दृष्ट्वा रथमचोदयत् सुमन्त्रः सम्मतानश्वान् वायुवेगसमाम् प्रया तोमारण्य चिरात्र बभूव नगरे मूर्छा बलमूर्छा जनसत्कुल मतसकुद्वीप हय सिंजितघोषं पुरमासीमस्वनम तत सबावृद्धा सा पुरी परम पीड़िता रामेवादुद्रवर्मा सलि यहा पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः बाष्पूर्णमुखाः सर्वे तमोचुर्भृश निःस्वनाः संयच्छवाजिनाम् रश्मीन्सूतया हि शनैः शनैः मुखम् द्रक्ष्याम रामस्य दुर्दर्शम् नो भविष्यति आयसम्हृदयम् नूनम् राममातुरसंशयम् यद्देव गर्भप्रतिमे याति न कृतकृत्या हि वैदेही छायेवानुगतापतिम् न जहातिरता धर्मे मेरुमर्कप्रभायथा महो लक्ष्मणसिद्धार्थः सततम् प्रियवादिनम् भ्रातरम् देवसङ्काशम् यस्त्वम् परिचरिष्यसि महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान् एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि एवम् वदन्तस्ते सोढुम् नशे कुर्बाष्पमागतम् नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम् अथ राजावृतस्त्रीभिर्दीनाभिर्दीनचेतनः निर्जगामप्रियम् पुत्रम् द्रक्ष्यामीति ब्रुवन् गृहात् शुश्रुवेजाग्रतस्त्रीणाम् रुदतीराम् महास्वनः यथानादः बद्धे महति पिता हि राजा काकुत्स्थः श्रीमान्सन्नस्तदा बभौ परिपूर्णः शशीकाले ग्रहेणोपप्लुतो यथा सचश्रीमान च रामो दशरथात्मजः सूतम् सञ्चोदयाम स त्वरितम् बाह्यतामिति रामो या हि तिष्ठेति च जनस्तथा उभयम् नाशगत्सूतः कर्तुमध्वनिचोदितः निर्ग्छति महाबाह रा पौरजनाश्रुभि पतिरभ्यवहित प्रणनाश महीरज ऋजिताश्रुप विद्यूनम हाहा घतमचेतन प्रयाणेराघवस पुरा परम पीड़ित शुश्रावनयन स्त्रीणश्रयासंभव मीन दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतम् पुरम् निपपातैव दुःखेन कृत्तमूल ततो हलहला शब्दो जज्ञे रामस्य पृष्ठतः नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृशदुःखितम् हारामेति च ना चापरे अन्तःपुरसमर्थम् च क्रोशन्तम् अन्वीक्षमाणो रामस्तु विषण्णम् भ्रान्त चेतसम् राजानम् मातरम् चैव ददर्शानुगतौ पथि सबद्ध इव पाशेन किशोरो मातरम् यथा धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ दृष्ट्वा सञ्चोदयामास शीघ्रम् याहीति सारथिम् न हि तत्पुरुषव्याघ्रो दुःखजम् दर्शनम् पितुः मातुश्च सहितम् शक्तस्तोत्रैर्नुर्न इव द्विपः प्रत्यगारमिवा यान्ति सवत्सा वत्सकारणात् बद्धवत्सा यथा धेनो राममाताभ्यधावता तथा रामलक्ष्मणसीतार्थम् स्रवन्तीम् वारिनेत्रजम् असखत्प्रैक्षतसताम् नृत्यन्तीमिव मातरम् तिष्ठेति राजा चुक्रोश याहि याहीदि राघवः सुमन्त्रस्य बभूवाऽऽत्मा चक्रयोरिव चान्तरा नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि चिरम् दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् स रामस्य वचः कुर्वन्ननुज्ञाप्य च तम् जनम् व्रजतोऽपि हयान् शीघ्रम् चोदयामास न्यवर्तत जनो राज्ञो रामम् कृत्वा प्रदक्षिणम् मनसाप्याशु वेगेन न्यवर्ततमानुषम् यमिच्छेत् पुनरायातम् नैनम् दूरमनुव्रजेत् इत्यमात्यामहाराजमोचुर्दशरथम् वचः तेषाम् वजः सर्वगुणोपपन्नः प्रस्मिन्नगात्रः प्रविषण्णरूपः निशम्य राजाकृपणः स भार्यो इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः